हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे ओराखण्डे एकषष्टि नमः सर्ग कौसल्याय राजानं प्रति सविलापम् अपालम्भ गते धर्मरते रामे रमयतां वरे कौसल्या रुदति चात भक्तारम् इदमब्रवीत् यद्यपि त्रिषु प्रथितं ते महद्य च सानुक्रोशो व्यश्च प्रियवादी च राघवे कथं नरे वरश्रेष्ठ पुत्रौ सह सीतया दुःखितौ सुख संवृद्धौ वने सु दुःखं सहिष्यतः स नूनं तरुणीश्याम सुकुमारी सुखोचितः कथम् उष्णं च शीतं च मैथिली विसहिष्यते भूत्वाशनम् विशालाक्षि सुपदुषान्वितम् शुभम् वन्यम् नैव हरमाहरम् कथम् सीतोपभोक्ष्यते गीतवादितृनिर्घोषम् श्रुत्वा शुभ समन्वित कथम् क्रव्यादसिंहानाम् शब्दम् श्रोष्यत्यशोभनम् महेन्द्रे ध्वज भुजम् परिह सङ्काशम् उपाधाय महाबलः पद्मवर्णं सुखे शान्तम् मुत्तमं कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् वज्रसरमयं नूनं हृदयेन संशय अपश्यन्त्यानृतं यद्वै फलतीदं स श्रधा यत् त्वया करुणं गर्म व्यपोह्य मम बान्धव निरस्ता परिधावन्ति सुखारह कृपणावने यदि पञ्चदशे वर्षे राघव पुनरेष्यति जह्याद्राजं च कोशं च भरतो नोपलक्ष्यते भोजयन्ति किल श्राधि केचि त्वानेव बान्धवान् ततः पश्चात् समीक्षन्ते कृतकार्याद्विजोत्तमम् तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातय न पश्चात् तेऽपि मन्यन्ते सुधामपि सुरूपमः ब्राह्मणेष्वपि वृत्तेषु भुक्तशेषम् द्विजोत्तमः नाभ्यूपे तु मलम् प्राज्ञा शृङ्गच्छेदम् एवं कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम्पते भ्राता ज्येष्ठो वरिष्ठश्च किमर्थम् नावमन्यते न ना परेणाहृतम् भक्ष्यम् व्याघ्र खादितुमिच्छति एवम् एव नरव्याघ्र परलीढम् न हविराजं हविराजम् पुरोडाश कुशायूपाश्च खादिरः नैतानि यातयामानि कुर्वन्ति पुनरध्वरे तथा ह्यात्तम् इदं राज्यम् हृतसारं सुरमिव नाभिमन्तुमलं रामो न ना च सोमम् इव राघवो मर्शयिष्यति बलवान् निव शर्दूलो बलधे अभिमर्शनम् भयं कुर्युर्मः बुधे अधर्मं कि धर्मात्म लोकं धर्मेण योजये नन्वसौ काञ्चन बाणै महावीर्यो महाभुज युगान्त भूतानि सागरान्नपि निर्द्रहीत् स तादृशसिंहबलौ भुजभाक्षो न दर्शभे स्वयमेव हतपित्र जलजेनात्मजो यथा दयासी चर धर्म शास्त्रे दृष्ट सनातन ता यदि धर्म स्वया पुत्रे विवासिते, रेकाय निरतेवासी गतिरखापतिरात्मज तृतीया ज्ञात राजतु ना विद्य तक मम नैवासी राम से न वन गंतुम्छा हताया हत्यादम स राज्य हतात्म सर्व स मंत्रि हताश पुत्रत्मी हताश पौरा सुत भार्य तव प्रश्ठ इम गिर दारुण शब्द संहिताशम्य ममोह दुखिसे तत स शोकम प्रवेश स्वदुष् भूतं चापि पुनः तथा स्मरत् इच्छाशे हिमन् रामायणे वाल्मीकि अधिकारि उद्याकाण्डे हि श्री सीता रामचन्द्रमस्तु